पञ्चमश्लोकः त्वय्यर्पितमनसाम् पश्यन् सर्वम् तवाकृतितया सततम् भजते नन्यप्रीत्या स जयत्यरुणा चलत्त्वयि द्वदर्पिते न चेतसानुरक्तमानसस्त्वयि त्वदाकृतित्वतोखिलम् सर्वदा अनन्यभक्तियोगतो भजन् सुकाम्बुधौ त्वयि उत्तमो हि योगिषु वार्तिकम् अतो विशिष्यते प्रेमी तदर्पितमनाः सदा विस्मृत्यत्वं च तत्प्रेम्णा वीक्ष्यते तन्मयं जगत् यो माम् पश्यति सर्वत्र सर्वं च मयि पश्यति तस्याहम् न प्रणश्यामि स च नाम प्रणश्यति योगिनामपि सर्वेषाम् मद्गतेनान्तरात्मना श्रद्धावान् भजते यो माम् स युक्ततमो मतः इति गीता सुसन्दिष्टम् पारम्यं प्रेमिणः किल पश्यांस्तम् तदानन्दे निमग्नधीः मुक्तप्रायो ह्यसौ कालान्मुक्तिमात्यन्तिकीम् व्रजेत् भक्तियोगेन लभ्येत प्रेमशोभनम उक्ता भागवते भक्तिर्नवधा श्रवणादिका नवमा तत्तु परस्मै स्वनिवेदनम् दैवीहेषा गुणमयि मम माया दुरत्यया मामेव ये प्रपद्यन्ते मायामेताम् तरन्ति ते इत्युपायः प्रपत्तिर्हि माया मोक्षाय दिश्यते मायया विषयेष्वेव प्रीतिः सञ्जायतेन्दृणाम् प्रपन्नो मायया मुक्तः परस्मिन् प्रेमवान् भवेत् अतः परस्मिन् कर्तव्या भक्तिः परमशोभना आत्मत्वेन पृथक्त्वेन कथञ्चित् परमम् भजेत् भजना प्रेमिंजातेक्यं स्रंसते चिरा उभेद शिष्य सत्यक्त भवे प्रेम्वांजती योगिभ्योसौ विशिष्य अतो विचारे नोच्चे दी इच्छे प्रेमनाम। श्वरम् स्तोत्रसमुदायार्थः न हि ज्ञानेन सदृशम् पवित्रम् इह विद्यते इति पूर्वोक्तमेवार्थम् इह दर्शयति स्वयम् वृद्ध इत्युच्यते ज्ञानी प्रेमी बाल इतीर्यते अहंकार अहङ्कारपरेतात्मा योगी प्रोक्तो युवेति च अत्र यौ अनम् एवाद्यं ततो बालत्ववृद्धते साहङ्कारत्वमेवादौ निरहङ्कारता परा योगाद्भक्तिस्ततः प्रेम ततो ज्ञानमिति क्रमः उत्तमो भवति ज्ञाने निकृष्टो योगतत्परः मध्यमो भवति प्रेमी तेषामेवम् विदामता मोक्षकारणसामग्र्यां भक्तिरेव गरेयसी भक्तिप्रकारे सर्वस्मिन् विचारः परमोत्तमः विचारेण्न्नताम् याति परमस्य स्वयम् हृदि विचारे परमो भक्तो ज्ञात्वैवम् स्वम् विचारयन् विचारेणैव सम्पूर्णम् परस्मै स्वनिवेदनम् विचारेणान्नतामेत्य न ततो भिद्यते यतः मङ्गलम् ईश्वरो गुरुरात्मेति मूर्तिभेदविभागिने परस्मै रमणाख्याय पञ्चरत्नकृते नमः शिवम् एतद्रमण महर्षेर्दर्शनमरुणाचलस्य देवगिरा पञ्चकमार्या गीतौ रत्नम् द्विदम् हे हि इति श्रीपारासर्यस्य भगवतो महर्षेराचार्यरमणस्य दर्शनम् अरुणाचलपञ्चरत्नम्